मार्कण्डेयपुराणम् अध्यायं ट्वेल् पितोवाच साधुवत्सत्वयाख्यातं संसारगहनं परं ज्ञानप्रधानसम्भूतं समाश्रित्यमहाफलं तत्र ते नरकाः सर्वे यथा वै रौरवस्तथा वर्णितास्तान् समाचक्ष्व विस्तरेण पुत्र उवाच रौरवस्ते समाख्यादः प्रथमं महारौरव संज्ञं तु शृणुष्व नरकम्पितः योजनानां सहस्राणि पञ्चसमन्ततः तत्र ताम्रमयी भूमिरधस्तस्य हुदाशनः तप्तापतप्ता सर्वासा प्रोद्यदिन्दुसमप्रभा विभात्यदिमहारौद्रा दर्शनस्पर्शनादिषु तस्यां बद्धकराभ्यां च पद्या यमु मुच्य पापकृ्ये लुठमान सी काूकैच्चिक भक्ष्यमस्था गृध्रैर्दृत मगे विकृष दह्यम विधर्मादर्भ्रातस्तादेति चाकुलः वदत्य स कृदुद्विघ्नो न शान्तिमधिगच्छति वर्षा युदा ह्यधिक्रान्तैरवाप्यते वर्षायुधायुतैः पापं ह्यैकृदं दुष्टबुद्धिभिः तथान्यस्तुतमो नाम सोदिशीतस्वभावतः महारौरववद्दीर्घस्तथा स तमसावृतः शीतार्तास्तत्र धावन्तो नरास्तमसि दारुणे परस्परं समासाद्यपरिरभ्याश्रयन्ति च दन्तास्तेषाञ्च भज्यन्ते शीतार्तिपरिकम्पिताः क्षुत्रिणा प्रबलास्तत्र तथैवान्येऽप्युपद्रवाः हिमखण्डवहो वायुर्भिनत्यस्थीनिदारुणः मज्जा सृग्गलितं तस्मादश्नुवन्दिक्षुधान्विताः ले लिह्यमाना परस्पर समागमे एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः प्राप्यदे ब्राह्मणश्रेष्ठ यावद्दुष्कृतसङ्क्षयः निकृन्दन इति ख्यातस्ततोऽन्यो नरकोत्तमः तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः यमानु यमानुगाङ्गुलिस्तेन आपादतलमस्तकं न चैषां जीवितभ्रंशो जायते द्विजसतम छिन्नानि तेषां शतशखण्डान्यैक्यं व्रजन्ति च एवं वर्षसहस्राणि चिद्यन्ते पापकर्मिणः तावद्यावदशेषं वै तत्पापं हि क्षयं गतम् अप्रतिष्ठञ्च नरकं शृणुष्व गदो मम अत्रस्थैर्नारकैर्दुःखमसह्यमनुभूयते तान्येव यत्र खडी खडीयन्त्राणि चान्यदः दुःखस्य हेदुभूतानि पापकर्मकृतां नृणां चक्रेष्वारोऽपिधा केचिद्भ्राम्यन्ते तत्र मानवाः यावद्वर्षसहस्राणि न तेषां स्थितिरन्धरा खडीयन्द्रेषु चैवन्यो बद्धस्तोये यथा खडी, खडी। भ्राम्यन्ते मानवारक्रमुदिगरन्धः पुनः पुनः अस्त्रैर्मुखविनिष्क्रान्धैर्नेत्रैरश्रुविलम्बिभिः दे यान्य ते प्रावती असि पत्रवनं नाम नरकं शृणुचापरम सहस्रम योजद तप्तासूल्यकैर्तीवस सुदारुण प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते पत्राणि तत्र खङ्गानां फलानि द्विजसत्तमं श्वानश्च तत्र सबला सबलास्वनन्द्ययुदशोभिताः महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः तदस्तद्वनमालोक्य शिशिरच्छायमग्रतः प्रयान्ति प्राणिनस्तत्र तीव्रतृक्परिपीडिताः हा मा दर्हा ताद इति क्रान्तोदीव दुःखिता क्रयुकला धरणीस्तेन वह्निनां तेषां गदानां तत्रासि पत्रपादी समीरणः प्रवादितेन पत्यन्ते तेषां खड्गान्यधोपरि तदःपदन्दिते भूमौ ज्वलत्पवकसञ्जये ले लिह्यमाने चान्यत्र व्याप्ता शेषमहीतले सारमेयास्ततः शीघ्रं साधयन्ति शरीरतः तेषामङ्गानि रुदतामनेकान्यभीषणाः असि ताद मयैतत्कीर्तितं तव भीमतरं अदपरम भीमतरम तप्तकुंभ निबोध मे समतस्तप्तुंभा वज्वालासृता ज्वल्निचृतूजिताकर्माण या ह्य क्षिप्ता ह्यधोमुखाः क्वाद्ध्यन्ते विस्फुटद्गात्रगलन्मज्जलाविलाः स्फुरत्कपालनेत्रास्तिच्छिद्यमाना विभीषणैः गृध्रैरुत्पाट्यमुच्यन्ते पुनस्तेष्वेववेगितैः न सिम सीमा ये तैलनेक्यं व्रचंती च्रवीभूत तदो गात्रुम नरैराशु दर्व्या यम्यनरशु दर्वट्टनखट्टिता कृतावर्ते महातैले मध्यन्ते पापकर्मिणः एष ते विस्तरेणोक्तस्तप्तकुम्भो मयापितः पितः इति श्रीमार्कण्डेयपुराणे पिताः पुत्रसंवादे महा महाौरवादिनरकाख्यानं नामद्वादशोऽध्यायः ओ